अथर्वेदे तृतीयाष्टके अष्टमोऽध्यायः ओत्यत्पुरुतमम् पुरस्तार्ज्योतिस्तमसो वयुनावधस्था नो नन्द्यो दुहितरो विभातीर्घातुम् गृणवन्धुषसो जनाय अस्थुरुचित्रा उषसः पुरस्तान्विता इव स्वरवोऽध्वरेषु यो व्रजस्य तमसो द्वारोुतयः पावकाः उच्छन्तीरद्यचितयन्तभोजान्द्राधो देयायोषसो मघोनीः अचित्रे अन्तः प्रणयः स सन्तबुध्यमानास्तमसो वि मध्ये कुवित्स देवी स न यो न वो भायामो मभोजा दुषसो वो ये नानभग्वे अङ्गिरे दशग्वे सप्तास्ये रेवती रे दूषा यूयम् हि जे एवीरहृतयुग्भिरश्वैः परिप्रजाथ पुनानि सद्यः प्रबोदयम् तीरुषथः ससन्तम् विपाच्चतुष्पाच्च रथाः यजीवम् विधानाः विदधुरसूणाम् शुभै यच्छुभ्रा उषसश्चरन्ति न विज्ञायन्ते सदृशीरजुर्याः ता घाता भद्रा उषसः पुरासुरभिष्टिद्विम् नारतजातसत्याः या स्वेदशमान उक्थैस्तु वञ्छम् सन्द्रमिणम् सद्याप ता आचरन्ति स मना पुरस्तात्समानतः समनापप्रधानाः ऋतस्य देवी सदसो बुधा नागवान्न सर्गाः उषसोचरन्ते ता इन्वे एव समना समानी रमीतवर्णा उषसश्चरन्ति गूहन्तिरभ्वमसि तम् ऋषद्भिः शुक्रास्तनोभिः शुचयोरुचानाः प्रयिन्दि वो दुहितरोऽपि भातीः प्रजावन्तम् यच्छता स्मासु स्यो नाम प्रतिबुध्यमानाः सुवीर्यस्य पतयः स्याम तद्वो दिवो दुहितरो विभातिरुपब्रुव उषसो यज्ञकेतुः वयम् स्याम यशसो जनेषु तद्यौश्च धत्ताम् पृथिवी च देवी प्रदिश्यासो न रीजनी व्युच्छन्ति परिश्वसूः दिवो अदर्शि अश्वे एव चित्रा ऋषि माता गवामृतावरी सखा भूदश्विनो रुषाः उत सखास्यश्विनो रुतमाता गवामसि उतोशो वस्व ईशिषे यावयद्वेष कित्वित्सो नृतावरि प्रति स्तोमयीरभुस्महि प्रतिभद्रा अद्रक्षतगवां सर्गानरश्मयाः ओषा अप्रा उरुज्रयाः आपप्रुषी विभावरिव्या आवर्ज्योतिषातमाः उषो अनुस्वधामव आद्यान्तनोषि रश्मिभिरान्तरिक्षमुरुप्रियम् उषः शुक्रेण शोचिषा तर्देवस्य स पितुर्भार्यम् महद्वृणीमहे असुरस्य प्रचेतसः छर्दिर्येन दाशुषे तन्नो महाम् उदयान् देवो अक्तुभिः यो धर्ता भुवनस्य प्रजापतिः पिशङ्गम् रापिम् प्रतिमुञ्चते कविः विचक्षणः प्रथयन् मा प्रणन् दुर्वजीजनत्सभिता सुम् न मुख्यम् आप्रारदांसि दिम् यानि पार्थिवा श्लोकम् देवः स्वायधर्मणे प्रवाहु अस्राक्सभिता सवीमनिवेशयन् प्रसुवन् ो भुवनानि प्रजाकशद्व्रतानि देवः स पिताभिरक्षते प्रास्राग् भुवनस्य प्रजाभ्यो धृतम् व्रतो महो अजमस्य राजति त्रिरन्तरिक्षम् स पितामहि त्वना त्रिरजांसि परिभोस्त्रीणिरोचना तिस्रो दिवः पृथिवीस्तिस्रैन्वरित्रिभिर्व्रतैरभिनो रक्षतिमना बृहत्सु नः प्रसविता निवेश नो जगतः स्थातुरुभयस्य यो वशी स नो देवः -दे स पिता शर्म यच्छत्वस्मे क्षयायत्रिवरोऽमम् अभोर्देवः स पितामन्भ्यो नुन इदा नीमह्न उपवाच्यो द्रभिः वियोरत्ना भजति मानवेभ्यः श्रेष्ठम् नो देवेभ्यो हि प्रथमै यद्यि देभ्यो मृतत्वम् सुवसि भागमुत्तमम् आदिदामानम् सवितर्व्योर्नुषे नो चीनाजीवितामानुषेभ्यः अचित्ये यच्च क्रमादैव्ये जने दीनैरुदक्षैः प्रभूते पूरुषत्वता देवेषु च सभिधर्मानुषेषु च त्वन्नो अत्र सुवतादनाकसः न प्रविये सभितुर्दैव्यस्य तद्यथा विश्वम् भुवनन्धारयिष्यति यत्पृथिव्यापरिमन्ना स्वम् गुरिर्वर्ष्मम् इव सुवति सत्यमस्य इन्द्रज्येष्ठान् बृहद्भ्यः पर्वतेभ्यः क्षयाङ्गेभ्यः सुवसि पस्यापतः यथा आयथा पतयन्तो विजे भी विर एव तस्थुः सवितः सवायते ये ते त्रिरहन् सवितः स वासो दिवे दिवेसौभगमा सुवन्ति इन्द्रोद्यावापृथिवी सिन्धुरद्भिरा आदित्यैर्नो अदितिः शर्मजम् सत् को वस्त्रातावसवः को वरुदाद्यावा भूमि अदितेऽत्रासीथान्नः स हीयसो वरुणमित्रवर्तात् को वोध्वरे परिबोधाति वो देवाः प्रयेधामानि पूर्व्याण्यर्चान्वियदुच्छान्वियोतारो अमूराः विधातारो वितेदधुरजस्रारतधीतयोरुचन्त तस्माः आमरितिम्सिन्धुमर्कैः स्वस्ति मेळे सख्याय देवी उभे यथा आ, आ, आ, नो अहनिपात उषासा नक्ता करतामदब्धे यमावरुणश्चेति पन्था विषस्पतिः सुभितम् गातुमग्निः इन्द्राविष्णो नृमदुषुस्तवा नाशर्म नोयम् तममवद्वरोथम् आपर्वतस्य मरुता ममांसि देवस्य त्रातुरौरिभगस्य पात्मदिर्जन्यादम्भसो नो मित्रो मित्र्यादुत न उरुष्येत् अहिना बुद्धे नस्तु भीतदेवि भी अप्येऽभिरिष्टैः भी समुद्रन्न सञ्चरणे स निश्यवो घर्मस्वरसो नद्यो अपौरन् देवैर्नो देव्यतिर्निपातु देवस्त्रातात्रायतामप्रयुच्छन् नहिमित्रस्य हि मित्रस्य वरुणस्य धासिमर्हामसि प्रमियं सान्वग्नेः अग्निदेशेऽपसंस्याग्निर्महः सौभगस्य तान्यस्मभ्यम् रासते उषो मघोन्यावहसूनदेवार्याः पुरो अस्मभ्यम् वाजिनीवति तत्सुनः मित्रो अर्यमा इन्द्रो नो राधसागमत् मही द्यावापृथिवीह ज्येष्ठे रुचा भवताम् श्रुतयद्भिरर्कैः यत्सीं ऋतापरि अद्रुहा देवपुत्रे निज्ञस्य नेत्री श्रुतयद्भिरर्कैः स इत्स्वपाभुवने श्वासय इमे द्यावा पृथिवी जाना गुर्वेकभीरे रजसि सुमेके अपंशे धीरश्चासमैरत् नो रोदसि बृहद्भिर्नोऽवरोधैः पत्नी वद्भिरिषयन्ति सजोषाः रोची विश्वे रते निपातम् ध्रियास्यामरथ्यः सदासाः प्रवामहिद्य अभ्युपस्तुतिम्भरामहे शुचि उपप्रशस्तये पुनारे तन्वामिथस्वे न दक्षेण राजथः ऊह्याथे सनाधृतम् महे वितरस्य साधथस्तरम् तेऽपि क्षेत्रस्य पतिना भयम् हि तेनेपजयामसि गामश्वम् पोषयित्वा सनो मृळा कीदृशे क्षेत्रस्य पते मधुमन्तभूर्मिन् ते दुरिपयो अस्मासु सूक्ष्म मधुश्च्युतम् कृतमि नः पतयो मृळयन्तो मधुमतीरोषधीर्द्या वा आपो मधुमन्नो भव क्षेत्रस्य पतर्मधुमान्नो अस्मरिष्यन्तो अन्वेनम् च रेम सुनम्बाः शुनन्दरशुनम् कृषतुराङ्गलम् सुनम्बरत्रापध्यन्ताम् सुनमष्ट्रामुदिङ्गया सुनाः सीराविमाम् वाचञ्जुषेथाञ्जद्दिविचक्रतुःपयाः ते ेवामुपसिञ्चतम् अर्वाजे सुभगे भवसि ते वन्दामहेत्वा यथा नः सुभगाससि यथा नः सुफलाससि इन्द्रस्यीतान्निगृह्णातु ताम् पूषानु यच्छतु सा नः पयस्मती दुहामुत्तरामुत्तराम् समाम् सुनन्नः फाला विकृषन्तु भूमिम् सुनङ्गीनाशाभियन्तु बाहैः शुनम् पर्जन्यो मधुनारयोभिः शुनासीराशुनमस्मासु धत्तम् समुद्रादोर्निर्मधुमाकुदा रदुभांशुना सममृतत्वमानट् घृतस्य नाम गुह्यञ्जदस्ति जिह्वा देवानाममृतस्य नाभिः वयम् नाम प्रभ्रमा घृतस्यास्मिन् यज्ञे धारयामानमोभिः उपब्रह्माशवच्छस्य मानम् चतुःशृङ्गोऽपमीद्गौर एतत् चत्वारि शृङ्गात्रयो अस्य पादाद्वे शीर्षे सप्तहस्तासो अस्य त्रिधा बद्धो वृषभोरो रवीति महो देवो मर्त्यावेश त्रिधाहितम् पणिभिर्गुह्यमानङ्गविदेवासो घृतमन्दविन्दन् इन्द्र एकम् सूर्य एकम् जानवेनादेकम् स्वदयानिष्टतक्षुः वेदार्षन्ति हृद्यात्समुद्राच्छदौ रजा निपुणानाभचक्षेः घृतस्य धाराः अपि च आकशीमिहिरण्ययो मनसा पूयमानाः एते अर्षन्त्योर्मयो घृतस्य मृगा इव क्षिपणो रीषमाणाः सिन्धोरिवक्ता ध्वनेशो घनासोपादप्रमियः पतयन्ति जह्वाः कृतस्य धाराः स्वनिधो न सन्ततादिषाडो हर्ण्येदाः कन्या इवतु मे तवा उ अन्यज्जाला अभिजाकीनि यत्र सोमः सूयते यत्र यज्ञो धाराः अभितत्पवन्ते अभ्यर्षत सुष्टुतिङ्गव्यमाजिभस्मासु भद्रा द्रविणानि धत्ता इमम् यज्ञम् न यतदेवता नो धारा मधुमत्पवन्ते धाम ते विश्वम्भुवनमधिः श्रिरमन्तः समुद्रे हृद्या अन्तरायुषे अपामनीके समिथेयाभृतस्तमश्यामवधु मन्त ऊर्मिम् अपोध्यग् समिधा जनानाम् विश्वेश्वर विरूपाक्षविश्वरूप सदाशिव महादेव विश्वेशा शिवशङ्करसर्वात्मन्नीलकण्ठनमोऽस्तुते मृत्युञ्जयाय रुद्राय नीलकण्ठाय शम्भवे अमृतेशाय सर्वाय महादेवायते नमः उग्रायोग्राघनाशाय ईशानाय नमस्त्वभ्यम् पशूनाम् पतये नमः दशसप्त च नामानि मण्डलान्तेषु यः पठेत् स शिवस्य पदम् गत्वा शिवलोके मुहीयते नास्ति मृत्युपयन्द्रस्य पापरोगादिकिञ्चन यज्ञेशाच्युतगोविन्दमाधवानन्दकेशव कृष्णविष्णो ऋषीकेशवासुदे वनमोऽस्तुते साक्षान्मूलप्रमाणाय विष्णोरमिततेजसे आद्याय सर्ववेदानाम् ऋग्वेदाय नमो नमः हरिहर शिवशङ्कर वामन वासुदेव विरामस्तावतु विश्वेश्वराय नमः हरिः ॐ श्रीगुरुभ्यो नमः हरिः ओः समिधा जनानाम् प्रतिधेनुमिवायति मुशासम् यक्वा इव प्रभयामुज्यः आनाः प्रभानमसिवच्छा अभोदायजथा आयदेवामूर्ध्वो अग्निस्वनाः प्रातरस्थात् समिद्धस्य ऋषदर्शिपाजो महान्देवस्तमसो निरमोची यदीङ्गणस्य रशनामजीगश्युचिरम् तेषु चिभिर्गोभिरग्निः आदक्षिणायुज्यते आद वा जयञ्च्युत्थानामूर्धो अधयज्युहोभिः अग्निवच्छाः देवयताम् चक्षुं श्रीभसूर्ये सञ्चरन्ति यदीम् सुवाहते उषसाविरूपेष्वेतो आयते अग्रे अह्नाहम् धनिष्ठो अग्रे अह्नाहम् हितो हितेश्वशो वनेषु नमे तमे सप्त रत्नादरान् अग्निरोदान्यसीदव्यजीयानुपस्थेः मातुः सुरभा उलोके युवाः कविःपुरनिष्ठप्रतामा धर्ताकृष्टीनाभुतमध्य इद्धः प्रणृत्यम् विप्रवद्धरेषु साधुमग्निम् मोता रमेण तेन मोभिः आयस्तता नरोदसी रतेन नित्यम् व्रजन्ति मार्जाल्यो मृद्यते स्वेदमो नाः कविप्रशस्तो अतिथिः शिवो नाह सहस्रशृङ्गो वृषभस्तदो जा विश्वाङ्गग्ने सहसा प्रास्यन्यान् प्रसद्यो अग्ने अत्येष्यन्यानाभिर्यस्मै चारुतमो बभूथा तुभ्यम् भरन्ति क्षितयोजमिष्ठबलिमग्ने अन्तितौत दूरात् आभन्दिष्ठस्य सुमतिम् च कीर्धिबृहत्ते अग्ने महि शर्मभद्रम् आद्यरथम् भानुवो भानुमन्तमग्ने तिष्ठयजतेभिः समन्तम् विद्वान्पथीनापुर्वान्तरे क्षमेह देवान्ह विनद्यायवक्षै अवोजामकवध्यायवचो वन्दारुवृषभायष्णे गविष्ठिरो स्तोम भग्नौ दिवे एव रुक्मपुरुव्यञ्जमश्रेत् कुमारं माता युपतिः समुद्धम् गुहाः नरदाति पित्रे अने एकमस्य न विनज्जनाः सः पुरः पश्यन्ति निहितमरतो नेतन्त कुमारम् वेशे पूर्वीरि गर्भः शरदो बवर्धापश्यञ्जातम् यदसूदमाताम् शुचिवर्णमारा क्षेत्रादपश्यमायुधाभिमानम् नो अस्मामृतम् विभृक्वत् किम् माम इन्द्राकृः क्षेत्रादपश्यम् स नुतश्चरन्तम् सुमद्यूथन्न पुरुषोभमानम् नता अग्रभ्रन्नजनिष्ठहिषः फलिग्नेरिद्युपतयो भवन्ते े एमर्यवन्तगोभिर्नयेषा अङ्गोपा अरणश्चिदासा वसाम्राजा सृजन्ताजादिपश्वा उपनश्चिकित्तान् वसाम्राजानम्रसविञ्जनामरातजोलितधुर्वर्त्येषु ब्रह्माण्यत्रेरपतम् सृजन्तु निन्दिता रोनिन्द्यासो भवन्तु सुनश्चिच्छेपन्निदितम् सहस्राद्युपादमञ्चो अशमिष्टहिषः एवास्मदग्ने मुग्धिपाशानुोतश्चिकित्त इहतो निषद्यमा नो अपहिमदये देवानामृतप उवाच इन्द्रो विद्वामनुहित्वा चतक्षते नाहमग्ने अनुशिष्टागा विद्योतिषा बृहता वा त्यग्निराविर्विश्वा निकृणुते महित्वा प्रादेर्मायाः सहते स्वानासो दिविशन्तग्नेऽस्तिग्मायुधा रक्षसे हन्तवादे चिरस्य प्रवृजन्ति भामा न परन्ते परिवादो देवी एतन् प्रोरथन्न धीरः स्वपा अतक्षम् यदि अग्रे प्रतिप्ते बहर्याः सर्वतीरपेना मग्निमृताः अवोचन् बर्हिष्मते मनवे शर्मयम् सद्धविष्मते मनवे शर्मयम् सत् त्वमग्नेपरुणो जाय श्रेयत्त्वम् मित्रो भवसि यत् समिद्धः त्वे विश्वे सहसस्पुत्रदेवास्त्वमिन्द्रो दाशुशे मत्याय त्वमन्यमाभवसि यत्करी नाम् रामस्वधा बङ्गुह्यम् विभरुषि अञ्जन्ति मित्रम् सुधि तन्न गोभिर्यद्दम्पती समनसा कृणोषि तव श्रिये मरुतोः मर्जयन्तरुद्रयत्तेजनिमचारु चित्रम् अदै यद्विष्णोरुपमन्निधाजितेन पासि गुह्यन्नामगो नाम तव श्रिया सुदृशो देवदेवाः सपन्ताम् होतारमग्निम् मनुषो निषे दुर्दशस्यन्त उषिजंसमाजो नत्वद्धोतापूर्वो अग्नेयी न काव्यैः परो अस्ति स्वभावः विशश्च यस्यादिथिर्भवासिष यज्ञेन वनवद्रेपमर्तान् वयमग्ने वनुयावर्तोतापसूयवोऽपिषाबुध्यमानाः वयम् स मर्ये विदधेष्पन्नाम्भयम् राजा सह सुत्रमर्तान् यो रागो अभ्ये नोत्यधिमघंसेदधाता जहे चिकित्तो अभिषस्तिभेतामग्ने यो ्युषिदेवपूर्व सूतृवाज्य संस्थे मतुभ्यपस्पृतिपुत्रोजस्ते सहसू नो कदाभसेस नोने कदाचिज्यादे भोजिनावंदमो दितावितोषयासे कुविद्देवस्य सहसा च कालः सूनमग्निरवलदेवावृधानः तमङ्गजरिताष्ठविश्वान्यग्ने दुरितादिपर्षि स्तेनादृश्यन् रिपभोजनासोज्ञातकेतावृधिनाभूवन् इमे यामासस्त्वदृकभूपन्वस मे भातदिदागो अवाचि नाहायमग्निरभिशस्तजेनो नरीषदेवावृधानः पलादात् पावग्ने वसुवसो नामभिप्रमन्दे अध्वरे सुराजन् प्रजावाजम् वाजयन्तो अजये माभिष्यामृत्सुते मर्त्यानाम् अव्यवाणग्निरजनः पितानो विभर्विभावा सुदृशी एको अस्मे सुगार्हपत्याः समिशोऽस्मद्र्याक्सम् श्रवाहंसे विषाङ्गविम् विष्पतिमानुषीणाम् सुचिम् पावकम् कृतपृष्ठमग्निम् ोतारम् विश्वविदम् द्वेष देवेषु वनदेवार्याणि दुषस्वा अग्नविरया सजोषायतमानो दृष्टिभिः सूर्यस्य दुषस्वनः सनिधम् जातवेद आच देवाह्नविरज्यायवक्षि दृष्टोदमो न अतिथिर्दुरोण इमन्नो यज्ञोपजाहि विद्वान् विश्वा आ अग्ने अभियुजो विहत्या आ शत्रु यता मा भरा वधे नदस्यम्प्रहितादयस्व वयः कृण्वा नस्तन्वे एस्वायै पिबर्षयेत्सहसः पुत्र देवान्सो अग्ने वाहि अस्मान ए अस्मान् वयन्ते ए, ए अग्न उक्तैर्विधेम वयम् हव्यै स्वाहावकभद्रशोचे अस्मे रयिम् विश्ववाहारम् समिन्वास्मे विश्वाहारिद्रविणानिधेः अस्माकमग्ने अद्भरञ्जुषस्व सहसस्सो नो त्रिषधस्थाव्यम् वयम् देवेषु सुकृतस्यामशर्मणा न स्त्रिवरोथेन पाहि विश्वानिनो अग्ने अत्रिवन्नवसा कृणालोस्माकम् बोध्यविता यस्माः हृदा कीरिणामन्यमानो मर्त्यम् मर्त्योजोहवीमि जातवेदोजो अस्मासु धेः प्रजाभिरग्ने अमृतत्तमस्याम् यस्मै त्वम् सुकृते जातवेदव लोकमग्ने कृणवस्योदम् नं। अश्विनम् स पुत्रिणम् वीरवन्तम् गोमन्तम् रहिन्वशते स्वस्ति सुसमिद्धाय शोचिषे घृतम् तीव्रञ्जुहोता अग्नये जातवेदसे न राशंसुशोदते मयि यज्ञमदाभ्यः कविर्हिमधुहस्त्यः ईडितो अग्नामहेन्द्रम् चित्रमिह प्रियम् सुखैरथेऽभिरूतये पूर्णम् रदाभिप्रसस्ताभ्या हर्का अनूषदा भवानः शुभ्रसादये देवेर्द्वारो विश्रयध्वम् सुप्रायणा न ऊतये प्रयज्ञम् प्रणीतन सुप्रदे एकेव योवृधाः जह्वीहृतस्य मातराः दोषामुषा समीमहे वा तस्य पत्मन् आरा व्याहोदाहारामनुषः निमन्नो यज्ञमागतम् किला सरस्वतीमही तिस्रो देवीर्मजोभुवाः अर्हिस्येदन्तश्रिधाः शिवस्पष्टरिहागहि विभुः पोष उदत्मनाः यज्ञे यज्ञेन उदवा यत्र वेत्थवनस्पते देवानाम् गुह्यानामाहानि तत्र हव्यानि गामय स्वाहाग्नये वरुणाय स्वाहेन्द्राय मरुद्भ्याः स्वाहा देवेभ्यो हविः अग्निन्दम् अन्येयो सुरस्तन्ति धेनवाः अस्तमर्वन्त आशमोऽस्तन्नित्याशो बाजिन इषम् स्तोतृभ्याभर सो अग्निर्यो वसुर्गृणेशञ्यवाजन्ति धेनवाः समर्वन्तोरभृद्रुवःसम् सुजाता सः सूरय इषम् स्तोतृभ्याभरहि वाजिनम् विषेददातिविश्वदर्षणिः अग्निराजेस्बाभुवंशप्रीतो यादिवार्यमिषम् स्तोतृभ्याभर आते अग्न इहे महिद्युमन्तम् देवाजरम् यद्ध स्यादेवयसे समिद्धीतयतिर्ज्यवीषम् स्तोतृभ्याभर आते अग्नरुचाहविशुक्रस्य शोचिषस्पते सृष्टम् रदस्मविष्पते हव्यभ्यम् भूयत इषम् स्तोतृभ्याभर प्रोहत्ये अग्नयोगिषु विश्वम् पुष्यन्ति वार्यम् ते हिन्विरेत इन्विरेत इषण्यञ्चानुष इषम् स्तोतृभ्याभरत्ये अग्ने अर्चयो महिम् राजन्तवाजिनाः ये मत्त्वभिषपानाम्रजापुरन्तको नामिषम् स्तोतृभ्याभर न वा आ नो अग्नाभर स्तोतृभ्यः सुक्षितेरिषाः ते स्यामय आतुस्तादोता सोदमे एतम इषम् उभे सुश्चन्द्रसप्षोदर्वे श्रीणीश आसने उतो न उत्पपोर्य उत्थेतु न इषम् स्तोतृभ्याभर एवाग्निमजुर्यमुर्गीर्भिर्यज्ञेभिरानुषग नस्मै सुवीर्यमुदत्यदाश्वमिषम् स्तोतृभ्याभर सखायः सम्बः सम्यञ्जमिषम् स्तोमम् चाग्नये वरुषिष्ठायक्षिजीनामोर्जोऽनत्रे कुत्रा आचिद्यस्य समृतोश्चिद्यमिन्धते सञ्जनयन्ति जन्दवाः संयतिशोमनामहे सम्भव्यामानुषाणाम् उत ज्युम्नस्य शवस हृतस्य रश्मिमाददे तस्मा कृणोति हेतुमानक्तञ्चिद्दूर आसते भगो यद्वनस्पतीन्प्रस्मा विनात्यजराः अपस्मयस्य वेषणे स्वेदम् पथिषु अभे महस्वजेऽन्यम् भूमाः पृष्ठेवरुरुः यं मर्त्यः पुरस्पृहम् वितद्विश्वस्य धायसे प्रस्वादनम् पितो नामस्तदा किञ्चिदायवेः स हिष्माधन्माक्षिरन्दातारदात्यापशुः येष्म शुश्रुचितन्द्रपुरनिभृष्टतविषि शुचिष्मयस्माः अत्रिवत्प्रस्पदिति वदीयते सुशूरसूतमाता आयस्ते सर्पिरा सुते अग्नेशमस्तिधायसे अयषुद्युम् न भुतश्रवः चित्तम् इति चिन्मन्युमध्रिजस्तारातमापुषुन्दते आदग्ने अपृणतो धृः सा सह्याद्दस्यो निषः सा सह्याद्रताय वःसमीतिरे प्रत्नम् प्रत्नास ऊतये सहसृत विश्वधा आय सन्दवो ओ सङ्ग्रहपतिम्बरेण्यम् त्वामग्ने अतिथिम् पूर्व्यम् विषशोतिष्के शङ्ग्रहवृत्केतुम् पुरुपम् धनस्मृतम् सुशर्माणम् स्वसञ्जतद्विषम् पामग्ने मानुषो होत्राविधातमम् गुहासन्तम् सुभगविश्वदर्शतन्तु विश्वनसंयजम् हृतश्रियम् त्वामग्ने धर्मसिं विश्वभयङ्गीर्भिर्गृणन्तो नमसोपसेदिम मिधानो अङ्गिरो देवो वर्तस्य यशसा सु देतिभिः त्वमग्ने पुररूपो विषे विषेवयो तथासि प्रत्नथा पुरुष्टुता पुरोण्यन्नासह सा विराजसित्विशिः सा ते तित्विषाणस्य राधृतेः समिधानञ्जविष्ठ देवादूतम् चक्रिरेहव्यवाहनम् उरुज्रयसङ्कृतयोमाहुतम् देशम् च क्षुर्दधिरे चोदयन्मते मग्ने प्रतिभाहुतम् कृतैः स्वम् नानव सुमिधा समेधिरे विरुक्षितो ओषधेऽभिरुक्षितो ओभिज्रया हंसि पार्थिवाभितिष्ठसे इति तृतीयाष्टके अष्टमोऽध्यायः